श्रीमद्भागवत्महापुराणम् एकादशस्कन्ध सप्तमोऽध्यायः यदुर्वाच कुतो बुद्धिरियं ब्रह्मन्न कर्तुसुविशारदा यामासाद्य भवान् लोकं विद्वांसृति बालवत् प्रायो धर्मार्थकामेषु विभित्सायां च मानवाः हेतुर्नैव समीहन्ते आयुषो यशस श्रियः त्वं तु कल्पं कविर्दक्ष शुभगोमृतभाषणः न कर्ता नेहसे किञ्चित् जटोन्मत्तपि सा चवत् जनेषु दह्यमानेषु काललोभदवाग्निनां मुक्तो गङ्गाम्भस्थ इव द्विपः तं हि न पृच्छतां ब्रह्मण्णात्मन्यानन्दकारणम् ब्रूहे भवतः केवलात्मनः श्रीभगवानुवाच यदुनैवं महाभागो ब्रह्मण्येन सुमेधसा पृष्ठसभाजित प्राह प्रसृयाव न तं द्विजः बहवो बुद्ध्युपाशिताः यतो बुद्धिमुपादाय मुक्तोमीहतासिणो पृथिवी वायुराकाशम् आपोऽग्निश्चन्द्रमारविः कपोतोज्गरसिन्धो पतङ्गो मधुकृद्गजः मध्वा हरिणो मीन पिङ्गलाकुररोर्भकः कुमारी कुमारीसं सर्कृतसर्प ऊर्णनाभि सुपे सकृ एते मे गुरवो राजन् चतुर्विंशतिराश्रिताः शिक्षावृत्तिभिरे तेषाम् अन्वशिक्ष महात्मनः यतो यदनु शिक्षामि यथा वा नाहुसात्मज तत्तत्तथा पुरसव्याघ्र निबोध कृतयामि भूतैराक्रम्यमाणोऽपि धीरो दैववशानुगैः सद्विद्वान्नं चलिन्मार्गां दन्मशिक्षं चित्रैर्वृतं शश्वत्परार्थसर्वैः परार्थैकान्तसम्भवः साधुशिक्षेत भूभृतो नागशिष्य परात्मतां प्राणवृत्यैव सन्तुष्येन्मनिर्नैवेन्द्रियप्रियैः ज्ञानं यथा नश्येत नावक्रियेत वाङ्मनः विषये स्वां विसंयोगी नानाधर्मेषु सर्वतः गुणदोषव्यपेतात्माना विसज्येत वायुवत् पार्थिवे स्वीयदेहेषु प्रविष्ट तद्गुणाश्रय गुणैर्ना योज्यते योगी गन्धैर्वायुरिवात्मदेवम् अन्तर्हितश्च स्थिरजङ्गमेषु ब्रह्मात्मभावेन समन्वयेन व्याप्त्यां जवच्छेदमसङ्गमात्मनो मुलिनभस्त्वं विततस्य भावये तेजोपन्नमये भावये मेघाद्यैवायुनेरितैः न निष्पृश्यते न स्पृश्यते स्वच्छ प्रकृतस्निग्धो माधुर्यस्तीर्थभूर्मिणां मुनिपुनातपा मित्रमिक्षोपस्पर्शकीर्तनैः तेजस्वी तपसा दीप्तो दुर्धरसोदरभाजनः सर्वभक्षोऽपि युक्तात्मानादत्ते मलमलमग्निवत् क्वचिच्छन्न क्वचित् स्पष्ट उपास्य श्रेय ईक्षताम् भुङ्क्ते सर्वत्र दातॄणां दहनप्रागोत्तराशुभं क्षमायाशिष्टमिदं सदसल्लक्षणं विभो प्रविष्टईयते तत्तत् स्वरूपोऽग्निर्वैधसी विसर्गाद्या श्मसानान्ताभावादेहस्य नात्मनः कलानामिव चन्द्रस्य कालेना व्यक्तवर्त्मनाम् कालेन शोगवेगेन भूतानां प्रभुवाप्यो निद्यावपि न दृश्येते आत्मनोऽग्नेर्यथार्तिषां गुणैर्गुणानुपादत्ते यथा कालं विमुञ्चते न तेषु युज्यते योगी यो दीर्गा इव गोपती